रि ॐ देवसवितः प्रसुजज्ञं प्रसूजज्ञपतिं भगाय दिवे गन्ध्वः केतपुः केतन्नः पुनातु वाचस्पद् वाजन् नः स्वदत स्वाहा जुवसदं त्वा नृषदं मनः सदमुपयाम गृहीतोषि इन्द्रायत्वात् जुष्टं गृह्णाम्ये कदे जो निरिन्द्रायत्वा जुष्टतमं अप्सु खदन्त्वा घृतसदं व्योमसदमुपयाम गृहीतोषि इन्द्रायत्वात् जुष्टाङ्गृणाम्ये क्रतेजो निरेन्द्रायत्वा जुष्टतमं पृथिविसदन् त्वं दक्षसदन् विसदन् देवसदन्नाकसदमुपयाम गृहिं तुसिन्द्रायत्वा जुष्टाङ्गृणाम्ये कृते जो निरेन्द्राय त्वा कृपाग्समुद्वयसूर्जे सन्तग्नि समाहितं रसस्य जो रसस्तं वो गृह्णाम्यतममुपयाम गृहीतोऽसि इन्द्राय त्वा जुष्टं गृह्णाम्ये खते जो निरेन्द्रायत्वा जुष्टतमम् ग्रहा ऊर्जाहूतयोग्यान्द्भिप्रायमतिम् तेखां विशप्रियाणां वोहामि कमुरजग्नि समग्रभमुपयामगृहीतोऽसि इन्द्रायत्वानुष्ठाम् गृह्णाम्ये घट यो निरिन्द्राय त्वानुष्ठतमम् संप्रजौस्थः सं मा भद्रेण प्रेङ्क्ताम् विप्रजौस्थो विमा इन्द्रस्य व्रजोऽसि वाजसास्त्वया वाजग्ंसेत वाजस्यानुप्रसवे मातरं महीमति नाम वचसा करामहेत् यस्यामिदं विश्वम्भुवनमाविवेश तस्यान्नो देवाः सविता धर्मसा अप्स्वान्तरामृतामुप्सुभे खजमपामुतप्रशस्ति वश्वा भवद्वाजिनः देवीरापूजो ऊर्मिः प्रतुर्तिः कपुन्मान्वाजशास्तेनायं वाचुंसेतु वातो वामनो वा गन्धर्वात् सप्त विंशतिः ते अग्रेष्वमयुञ्जमस्ते अस्मिन् जवमा दधु वा तर्गाभवाजिजमान इन्द्रस्येव दक्षिणः श्रियैः जुञ्जन् दु त्वा मरुतो विश्वमेधस आदे ज भूजस्ते अब्बाजिं निहितो गुहाजहास्ये पर्यतो अचर्च वा बलवान तेनुवाजिं बलवान् बलेन वाजिच्च भव समने च पारयिष्णु वाजिनुवाजितो वाज सख्यन्तु बृहस्पतिर्वागमवज देवस्याग्नि सवितुः सवेत् सत्यसवसो बृहस्पते रुत्तमं नग्नि लृहेयम् देवस्याग्नि सवितुः सवेत् सत्यसव स इन्द्र उत्तमन्न कग् लृहेयम देवस्याग्नि सवितुः देवस्याह सवितुः समे सत्यप्रसवस इन्द्रोत्तमकमरुहं बृहस्पते वाजं जय बृहस्पतये वाजं वदत बृहस्पतिं वाजं जापयत इन्द्रं वाजं जयेन्द्राय वाजं वदतेन्द्रं वाचं जापयत् एका वहा सा सत्यासं पाकभूद्यया वृहस्पतिं वाजमजि जपदाजीजपत वृहस्पतिं वाजं वनस्पतयुवं विमुच्यत ब्रह्म एका वहा सा सत्यासं वागभूद्ययेन्द्रं देवस्याग् सवितुः सवित् सत्यप्रसवसो बृहस्पतिर्वाजजितो वाजम् चेखम् वाजिनु वाजजितोध्वरस्कमुन्तो जो जनामि मानाः काष्ठाम् गच्छत एकस्य वाजीयक्षिपणीम् दुरन्नति ग्रीवायाम् बद्धो अपि कक्ष क्रतुन्दधिकरा अनुसारुष्यान्वणीफ स्वाहा उतस्मास्य द्रवतस्तुरान्यतः पर्णान्नमेरनुवात् प्रगृथिनः श्येनस्यैव द्रजतो अङ्क संपदिरधिक्रामणः सहवर्जातरितरतः स्वाहा शं नो भवन् दुर्वाजिनो हवे कुदेवतामितगर्वाः स्वर्गाः जम्भयन्तो हि वृक्रक्षाग्नियम्यसमद्युयवन्नभीवाः तेनो अभवन्तो हवन श्रुतो हवं विश्वेशुर्वाजिनो मितगर्वः सहस्रसा मेधसाता सन्ख्यव महोजे धन समिथे कुजभ्रीरे वाजे वाजेवत वाजिनो नो, नो धनेघुविप्रा अमृता अरितज्ञाः अस्य मध्वः पिवत मालयध्वृता जातपथिभिदेव यानैः हा माजस्य प्रसवो जगन्नाधे पृथिवी विश्वरूपे आमागन्ताम्बितरा मातराजामासोमो अमृतत्वेन गम्यातु वाजिनो वाजितो वाज सस्रे वाग् सो बृहस्पतेर्वागम वज्रतनि नृजानाः आपये स्वाहा स्वापये स्वाहा पिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा हर्पतये स्वाहा मे मुग्धाय स्वाहा मुग्धाय वै नग्निशीलाय स्वा हादिनग्नि शिन अन्त्यायनाय स्वाहात्याय भुवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा आयुर्जज्ञे न कलपतां प्राणो जज्ञे नकल्पताञ्जक्षुर्जज्ञे नकल्पताशोत्राञ्जज्ञे न कलपताम् भ्रष्टाञ्जज्ञे नकलपोताञ्जज्ञो यज्ञे नकलपताम् प्रजापतेः प्रजा अभूमस्वर्देवा अगन्मा मृता अभूमौ अस्मे वो अस्मेन्द्रियामस्मेन्द्रेम्णतक्रतुरस्म्य परिचाक्नुषि सन्तु अहम् नमो मात्रे पृथिवी नमो मात्रे पृथिव्या इयन्ते राज्यन्तासिषमनुध्रुवोषिधरुणः कृक्षयित्वा क्षेमायत्वा अर्जयित्वा अपोखाय त्वाम् उवायस्येमम् प्रसवासु भुवेग्रेषु उमभिन्द्राजम् नमो खीकप्सू ता अस्मभ्यं मधुमतिर्भवन् राष्ट्रे जागृयाम पुरोहिताः स्वाहा वाजसे मां प्रसवः श्रिये दिव मीमा च विश्व भुवनानि सम्राट अदिन् दापयति प्रजानन् स नोरग् सर्ववीरन् स्वाहा नुप्रसव आ बभूवे मा च विश्व भुवनानि सभता समेमि राजा परियाति विद्वान् प्रजाम्बुष्टिम् वर्धय मानु अस्मि स्वाहा <coughs> सोमग्नि राजानमभसे मन्वारवामहे आदित्यान् विष्णुज्ञां ब्रह्माणं च वृहस्पति स्वाहा अर्जमणं वृहस्पतिमिन्द्रान्धानाय चोदय बाचम विष्णु सरस्वती सवितार जववाजिन स्वाहा अग्ने अच्छावदेहनः प्रतिनः सुमना भव प्रनो यच्छ स्रजवत् धनोदा असि स्वाहा प्रनोजत्व जमा प्रपूका प्र प्रवाग्देवी वाग्देवी ददातु नः स्वाहा देवस्य त्वा सवितुः प्रसवेऽश्विनो मर्वा भूयाम् भूषणो हस्ताभ्याम् सरस्वत्यै वाचोजान्द्रिये ददत् निवेहस्पृतेष्ट्वा साम्राज्येनाभिखिञ्चम्यसौ अग्निरेकाक्षरेण प्राणमुदजयत्तामुज्ये क्रमश्विनौ मदि रक्षरे हृद्विपादो मनुष्ठानुदजयतान्तानुज्ये खरं विष्णुस्य अक्षरेण त्रिन्दौकामुदजयत्तानुज्ये खग् सोमश्चातुरक्षरेण चातुकपदाः पशूनुदजयता पंचाक्षर पंच दिश उद उज्जै सविता खड़े खड ऋतूनुदजयताजेघम मप्ताक्षरण सप्ता पशूनुदज खृहस्पति अस्टाक्षरण गायत्री मुदजयत्तामुज्जेखं त्रो नवाक्षरेण त्रिवेदगुस्तु ममुद जयत्तामुज्येखं वरुणो दशाक्षरे न वीराजमुद जयत्तामुज्जेघमिन्द्र एकादशाक्षरे ण तिष्ठुमुद जयत्तामुज्जेखं विश्वे देवम् द्वादशाक्षरेण जगति मुदजयंस्तामुज्येत् खम्बकास्त्रयोदशाक्षरेण त्रयोदश पुस्तत् ममुदजयं मुजे खग्तुर्दशाक्षरेण चतुर्दश पुस्तो मुदजयंस्तामुज्येत् कमारित्याह पञ्चदशाक्षरेण पञ्चदश पुस्तो ममुदजयं मुज्ये कमदितिः षोडशाक्षरेण खोडश पुस्तौ मामुदजायत्ता मुजे खं प्रजापतिः सप्तदशाक्षरे न सप्तदश पुस्तौ मा मुदजायत्ता मुज्ये खं हे खते मृते भागस्तयुगस्व स्वाहानेत्रेभ्यो देवेभ्यः विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सर्गः स्वाहा मित्रावरुणनेत्रेभ्यो वा वरुणेत्रेभ्यो वा देवे व्य उत्तरा सर्गः स्वाहासोमनेत्रेभ्यो देवे व्य उपरि सर्भ्यो दुमसभ्यः स्वाहा जेदेवा अग्निनेत्राः पुरः सरस्तेभ्यः स्वाहा जेदेवाजमनेत्रा दक्षिणा सदस्तेभ्यः स्वाहत् जेदेवा विश्वदेवानित्राः पश्चात् सदस्तेभ्यः स्वाह जेदेवामित्रावरुणनेत्रा वामरुन्नेत्रा भुवत्तरा सदस्तेभ्यः स्वाह जेदेवाः सोमनेत्रा उपरिषद भुवस्वन्दस्तेभ्यः स्वाहा अगमेश स्व प्रतना अभिमाथीरपास्य दुष्टास्तानां न राजोदा च निर्वाहसि देवस्यत्वा सवितुः प्रसवेश्विषणो हस्ताभ्यां उपाशुभो निहत रक्षाः स्वाहा रक्ष सान्त्वाय वर्गम सवितात्वा सवानाग्निसुमतापतीनाग्नि सोमु वनस्पतीनां बृहस्पतिर्वाच इन्द्रो जयष्ठाय सुरः पशुय मित्राः असु देवा असवत् लग्न सुवर्वां महतेऽक्षत्र य मह ते जयिष्ठ्याय महते, महते जानराज्यायेन्द्रस्येन्द्रियाय इमा नुख्या पुत्र मम मुख्ये पुत्रमस्येभ्य एको मी राजा सोम्यस्माकं ब्राह्मणाना राजा इति नवमः